गणेशपुराणं क्रीडाखण्डम् अध्यायं फिफ्टि नैन् मुनिरुवाच विनायकेन बालेन कुतः स पुरुषकृतः येन तद्भक्षितं सैन्यमानीतः स नरान्तकः यदन्मे प्रकटं ब्रूहि संशयोऽत्र महान् मम क उवाच यन्निर्गुणं परं ब्रह्म तदेतत्सगुणं बभौ विनायकस्वरूपेण ब्रह्मविष्णुशिवात्मकं भूभारहरणार्थाय दुष्टानां निधनाय च पालनाय स्वधर्मस्य बिभ्रतेनन्दरूपताम् स एवसृचते विश्वम् पादि हन्दि स्वतेजसा अपेक्षते स लोकानां निमित्तं नियतिं परां न चात्र संशयः कार्योऽनेकमायामये का विभौ तदिच्छया सर्वमिदं जगद्धि परिवर्तते इदानीं तस्य मायां ते कथयिष्यामि विस्तराद नरांतक नरान्तकधृतो नृपः यावन्नपत्तनं प्राप तावत्कालं पुमानः सौ भक्षयामास तां सेनां दैत्येन परिपालिताम् विनायकेन पुरुषो मुखे सौ निहितस्तदा राजामात्यकुमारौ च सोऽपि ते सर्व एव तु तस्य देवस्य ददृश्युः सकलं जगद सप्तद्वीपवदीं पृथ्वीं पर्वद्रुमसंयुधां सरित्सागर वापीभिस्तडागैर्मानवै श्रुताम् देवगन्धर्वमुनिभिः सिद्धयक्षनिशाचरैः पन्नगैराक्षरोभिश्च शोभिदं स्वर्गमण्डलं पातालानि च न्दे जठरे तस्य कोष्ठे कोष्ठे पृथक् पृथक् ददृश्युर्भ्रान्तमनसो ब्रह्माण्डनिचयान् बहून् खिन्नास्ते शरणं जग्मुर्देवदेवं विनायकं। मनसा प्रार्थयामा सुस्तदा देवं विनायकम् भ्राता खिन्नचिताे ततस्तालूण मगमादर्शयद विभु तद रोमचमागे बहियाद यहादर्श काशीराजस्व नगर भद्रमे च कश्यपश्यात्मजं बालं क्रीडन्तं तं विनायकं तत्प्रसादाप्तबुद्धिर्नुनावपरया मुदा ज्ञातादे परमायामया कुक्षिगते न च त्वमेव कर्ता देवानां मनुष्याणां दिशामपि सर्गाणां सागराणां च सरितां बलिसत्मनां यतस्ते रोमकूपेषु ब्रह्माण्डानां हि कोडयः दृष्ट्वा भ्रान्ते नचमया च मया प्रसादात् तव नादभो आश्चर्यं बहुधा दृष्टं मया तव च विश्वक्ति अहं युद्धाय सम्प्राप्तो ध्वजिनी पुनरागदा नरांतकस्य सैन्येन सजिदा तत्क्षणादनु अमाद्य पुत्रसहितो नरान्तकमुपाद्रवम् विधृतस्तेन सह सा सैन्यम् जित्वा दग्धाजनगरी सर्वा दृष्टः स कालपूरुषः तेना विभक्षिता तस्य सेनानाविधा क्षणाद धृत्वा नरान्तकं यादास्तत्र दृष्टोऽसि प्रभो सर्वं दृष्टं च तत्रापि जम्बूद्वीपं सविस्तरं एवं कोष्ठान्तरे दृष्टं भूतलं च सविस्तरं ततो हि खिन्नास्त्वां यादाश्चरणं जगदीश्वर त्वदाज्ञयादिरोमाञ्जधारेण निर्गदाबहिः नर्दृष्टोसी बास्व भवनं महद किमिदं किमीदम जालमिदं विभो पश्चा पुषो देव येना भक्षि भक्षिमचनासिधृदो दैतो रक्षतचापिच केनादर्शि च रोमाञ्चद्वारं निर्गमनाय च यदि मे संशयं देवनुदभक्तस्य यत्नतः क उवाच एवं तेन कृधप्रश्नोमस्तके तस्य धीमतः विनाय ककरतलं कृपया निदधारः दिव्यज्ञानो भवद्राजाकाशीराजस्तु तत्क्षणाद परया भक्त्या देवदेवं विनायकं राजोवाच त्वमेव ब्रह्मविष्णुश्च महेशो भानुरेव त्वमेव त्वमेव पृथिवी वायुरन्तरिक्षं दिशो ध्रुमाः पर्वतैः सहिता सिद्धा गन्धर्वा मुनयो मानवाश्चाभिष्टावरं जंगमं जगद त्वमेव सर्वदेवेश सचेतनमचेतनं जन्मान्तरीयपुण्येन दृष्टोऽसि कश्यपात्मज क उवाच एवं ब्रुवधिराजेन्द्रे मोहयामास तत्क्षणाद ततो राजापुपूजयिनम् विनायकमनामयम् तदः पौरा हर्षयुध राजानं द्रष्टुमाययुः नत्वा नत्वाद ददुस्तस्मै वस्त्राण्याभरणानि च राजा पिधाकयामासतेभ्यो वस्त्राण्यनेकशः विसृज्य लोकां तान् सर्वाञ्जननीमभ्यगात्तदः दृष्टं पादयुगं मया दैत्यराजेन देवदेवेन रक्षितः तदोहर्षयुधमादर्लिलिङ्गतं चिरागदम् अमात्यौ राजपत्नीं तां नत्वा हदुरुभौ तदा तव पुण्यप्रभावेण दृष्टन्ते चरणाम्भुजं विनाय कश्य मायाभिर्मोहिता मोचिताश्च ततस्तत्रययौ राजा भार्यामम्बां जगाद च निवृतेषु च लोकेषु हर्षगद्गदया गिरा राजोवाच परमं कष्टमापन्नो धृतो दैत्येन तत्क्षणाद मोचितो माययानेन प्रापितौ नगरं निजं क शुशुभेनगरं तच्च नानावादित्रनिःस्वनैः पदा काभिरनेकाभिर्विविधैश्च महोत्सवैः प्रत्यानीतैः सर्वलोकैर्विनायकबलेन च कुमाराः कन्यकाश्चापि योषितः जनकाश्च जनन्यश्च पुत्राश्च भ्रातरस्तथा लिलिङ्गुश्च जहर्षुश्च ददुर्दानान्यकशः बुभुजोर्भोजयामासुर्लुलोकुश्च पपुर्जगुः यदि श्रीगणेशपुराणे क्रीडाखण्डे राजमोक्षणम् नामैको नषष्टितमोऽध्यायः ना ओम्